श्रीमद्भागवत्महापुराणमेकादशस्कन्धम् अथ सप्तविंशोऽध्यायः क्रियायोक्का वर्णन् उद्धौ उवाच क्रियायोगं समाचक्षु भवदाराधनं प्रभो यस्मात् त्वां ये यथार्चन्ति सात्त्वता सात्त्वतर्षभ एतद्वदन्ति मुनयो मुहूर्ने श्रेयशं नारदो भगवान् व्यास आचार्यो गिरसुतः निःशितं ते मुखाम्भोजा यदाह भगवानजः पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भव एतद्वै सर्ववर्णानाम् आश्रमाणां च सम्मतम् श्रेयसामुत्तमं मन्ये श्रीशूद्राणां च मानद एतत्कमलपत्राक्षकर्मबन्धविमोचनं भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर श्रीभगवानुवाच नयन्तोऽनन्तपारस्य कर्मकाण्ड्यस्य चोद्धव संक्षिप्तं वर्णयिष्यामि यथावदनुपुर्वशः वैदिकस्तान्द्रिको मिश्र इति मे त्रिविधो मुखः त्रयाणां हिंसितं तेनैव विधिना मां समर्चयेत् यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः यथा यजेत भक्त्या श्रद्धया तन्निबोधमे अर्चायाम् तण्डुलेऽग्नौ वा सूर्ये वा सुहृदि द्विजे द्रव्येण भक्तियुक्तोऽर्चैत स्वगुरुं माम माययां पूर्वं स्नानं प्रकुर्वीत धोतदन्तोऽङ्गशुद्धये उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादीनां सन्ध्योपास्त्यादिका कर्माणि वेदे न चोदितानि वै पूजां तैकल्पये सम्यक् सङ्कल्पकर्मपावनीं शैलीदारुमयी लौही लेप्यालेख्या च सैकती ननोमयि मणमयीं प्रतिमाष्टविधा स्मितां चलाचले ति द्विविधा प्रतिष्ठा जीवमन्दिरम् सिराया स्तशिरायामुवार्चने अस्थिरायां विकल्पस्यास्तण्डिलोतु भवेद्वयं सनपनं त्वविलेप्यायाम् अन्यत्र परिमार्जनं द्रव्यै प्रसिद्ध्यैर्मद्यागः प्रतिमादिश्वमायिनः भक्तस्य च यथा लब्धैः श्रीभावेन चैव हिं स्नानालङ्करणं प्रेषम् अर्चायामेव स्थण्डिले तत्त्वविन्यासो वह्नावाद्य प्लुवम् प्लुतम् हविः तुर्ये चाभ्यर्हणम् प्रेष्ठम् शलिले शलिलादिभिः श्रद्धयोपासितम् प्रेष्ठम् भक्तेन मम वार्यपि भुर्यप्य भक्तोपहृतं न मे तुषाय कल्पते गन्धो धूपसुमनसो दीपोन्नाद्यं च किम् शुचैः संवृतसंभारः प्राग्दर्भैकल्पितासनः आसीन प्रागुदग्वार्चेदर्चायामथु सम्मुखः कृतन्यासकृतन्यासां मदर्चां पाणिना मृजेत् कलसंप्रोक्षणीयं च यथावदुपसाधये तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च प्रोक्षपात्राणि त्रीण्यध्येतैस्तै द्रव्यैसि साधयेत् पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशुकः हृदाशिष्णाथ शिंसुखया गात्र्यां चाभिमन्त्रयेत् पिण्डे वायव्यग्ने संशुद्धे षित्पद्मस्थां परां मम अर्विं जीवकलां ध्यायेन्नादान्ते सिद्धभावितां तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः आबाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् पाद्योपस्पर्शार्षणादीनोपचारान् प्रकल्पयेत् धर्मादिभिश्च नोऽभिकल्पयेसनं मम पद्ममष्टदलं तत्र कर्णिकाके सरोज्वलम् उभाभ्यां वेदतन्त्राभ्यां मह्यं तुभे सिद्धये सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् मुसलं कौस्तुभं मालां श्रीवत्सं चानपूजयेत् नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च महाबलं बलं चैव कुमुदं कुमुदे क्षणं दुर्गां विनायकं व्यासं विश्वक्सेनं गुरुन्सुरान् स्वे स्वे स्थाने त्वाभिमुखान् पूजये प्रोक्षणादिभिः